हरिओं श्री सीताचंद्रभ्या अथ श्रीमद्वाणे अयोध्या षोडशाधिकम सर्ग वृद्धेन कुलपतिनाथ बहुना चित्रपूट त्यक्त अश्रम गमन प्रति यासे वर् वसन राम लक्षा अथोत्सुक्यं तपस्विनाम् ये तत्र चित्रकूटस्य पुरस्तात् तापसा श्री निरसा नरक्ष्य यदुत्सुकान् नयनये भ्रुकुटीभि च रामम् निर्देश्य शङ्कितः अन्योन्नम् उपजर्वम् नयनये अन्योन्यम् उपजल्प्यन्त शनै चक्रोर्मिथक् कथा तेषामौसौक्यमालक्ष्य रामस्वात्मनि शङ्कितः कृताञ्जलि उवाचेदम् कृषिं कुलपतिं ततः न कश्चित् भगवन् किञ्चित् पूर्ववृत्तम् इदं दृश्यते विकृतं येन विक्रीयन्ते तपस्विनः प्रमाधाश्चरितं किञ्चित् कञ्चिन्नाव रजस्य मयि लक्ष्मणस्य शिरभिः दृष्टम् दानुरूपम् आत्मनः कश्चित् शुश्रूषमाणाव शुश्रूषेण परमयि प्रमदाभ्यूषितां वृत्तिम् पीता युक्तां न वर्तते अतार्षे वृद्धे तपसः च जलं गत वेपमाना रामंभूत दया परम कृत कल्याण दल्याणीरते सल चलन तात वै दे तपस्वीशु विशेषते सन्नत प्रति वर्ष से रक्षाभ्य सुम विघ कथय कथ रावण करोना कचि कौनाक्षस उत्पाट्यतापसान् सर्वान् जनस्थान निवासिनः दृष्टश्च जितकाशी च नृशंस पुरुषादकः अवलिप्तः च पाप च सां च तात न मृष्यते तं यस्मिन् आश्रमे तात वर्तते तदा प्रभृति रक्षि विप्रकुर्वन्ति तापथं दर्शयन्ती हि बिभद्रै क्रूरैर्भी चणकैरपि नाना रूपै विरूपै च रूपै सुखदर्शनैः अप्रशरतये शुचिभिः सम्प्रयुज्य च तापसान् प्रतिघ्न च पराम् क्षिप्रम् अनाल्या पुरतः स्थितान् तेषु तेश्व तेषाश्रमस्थानेषु रमन्ते तापसान् नाशयन्तो अल्पचेतसः अवक्षिपन्ति सुभाण्डान् अग्निं कलशांचे वारेण कलशाश्च प्रमर्दन्ति कवले समुपस्थिते तैदुरात्माभिराविष्टान् आश्रमान् प्रजिहासवः गमनायान्यदेशस्य चोदयन्ति ऋषियोद्यमाम् तत्पुरा रामशारीरीम् उपहिन्ताम् तपस्विषु दर्शयन्ती हि दुष्टास्ति चक्षामयि ममाश्रमम् बहुभूलफलम् चित्रम् अविदूरादितो वनम् अश्वस्याश्रममेव श्रीशे स गणः पुनः च युक्तम् पुराराम प्रवर्तते सात्माभि गच्छ यदि बुद्धिः प्रवर्तते सकलेत्र सन्देहो नित्यं युक्तस्य राघवे समर्थस्यापि सतो वासु दुःखं ह्याद्यते इत्युक्तवन्तं रामस्थं राजपुत्रे तपस्विनं न शशाकोतरैर्वाक्ये अवबद्धुम् समुत्सुकम् अभिनन्द्य समापृच्छ समा च राघवम् स जगामाश्रमं त्यक्त्वा कुलैकुलपतितः रामः संसाध्य ऋषिगणमनुगमनात् देशा तस्मात् कुलपतिम् अभिवाद्य ऋषिम् सम्यक् प्रीतैतैः अनुमथ उपदिष्टार्थ पुण्यं वासा यस्व निलयम् अपसं वेदे आश्रमं ऋषिविरयितं प्रभु राघवे राघवं हि सततमनुगतः तापसाचार्य चरिते द्रुतगुणाः विचारे श्रीमद् रामायणे वाल्मीकि अधिकाव्योद्याकाण्डे षोडशाधिक शततमा सर्गा रामचन्द्र बनमास्तु